अथ चत्वारिंशः सर्गः ततो रामः सुेलाग्रम् योजनद्वयमण्डलम् उपारोहत्स सुग्रीवो हरियूथैः समन्वितः स्थित्वा मुहूर्तम् तत्रैव दिशो दश विलोकयम् रम्ये निर्मिताम् विश्वकर्मणा ददर्श लङ्काम् सुन्यस्ताम् तस्य गोपुर शृङ्गस्थम् दुरासदम् श्वेतचामरपर्यन्तम् विजयच्छत्रशोभितम् रक्तचन्दन संलिप्तम् रत्नाभरणभूषितम् नीलजीमूत सङ्काशम् हेम सञ्चादिताम्बरम् ऐरावत सन्ध्यातपेन सञ्छन्नम् मेघराशिमिवाम्बरे पश्यताम् वानरेन्द्राणाम् राघवस्यापि पश्यतः दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च अचलाग्रादथोत्थाय पुप्लुवे स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषम् वचः लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षसा न मया मोक्षसेद्यत्वम् पार्थिवेन्द्रस्य तेजसा इत्युक्त्वा सहसोत्पत्त्य पुप्लुवेतस्य चोपरि आकृष्य मुकुटम् चित्रम् पातयामासत् समीक्ष्यतूर्ण मायान्तम् बभाषे तम् निशाचरः सुग्रीवस्त्वम् परोक्षम् मे हीनग्रीवो भविष्यसि इत्युक्तोोत्थाय तम् क्षिप्रम् बाहुभ्यामाक्षिपत्तले कन्दुवत्ससमुत्थाय बाहुभ्यामाक्षिपद्धरिः परस्परम् स्वेद विदिग्धगात्रौ परस्परम् शोणित परस्परम् श्लिष्ट निरुद्ध चेष्टौ परस्परम् शाल्मलिकिम् शुकाविव मुष्टिप्रहारैश्च तल प्रहारैरत् प्रहारै निघातैश्च कराग्रघातैः तौ च क्रतुर्युद्धमसह्यरूपम् महाबलौ राक्षस वानरेन्द्रौ कृत्वा नि युद्धम् उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ पादक्रमार्गोपुरवेदि लग्नौ अन्योन्यमापीड्य विलग्न देहौ तौ पेततुः सार निखात मध्ये उत्पेततुर्भूमितलम् स्पृशन्तौ स्थित्वा मुहूर्तम् त्वभि निःश्वसन्तौ आलिङ्ग्य चालिङ्ग्य च चा बाहुयो क्रैः संयोजयामासतु राहवेतौ संरम्भ शिक्षा बल सम्प्रयुक्तौ सुचेरतुः सम्प्रति युद्धमार्गैः शार्दूलसिंहाविव जातदम् स्ोगजेन्द्र पोता विव सम्प्रयुक्तौ संहत्य संवेद्य च तौ कराभ्यान्तौ पेततुर्वै युगपद्धरायाम् उद्यम्य चान्योन्यमधिक्षिपन्तौ सञ्चक्रमा ते बहु व्यायाम शिक्षा बल सम्प्रयुक्तौ जग्मतु राशु वीरौ बाहूत्तमैर्वारणैर्निवारयन्तौ पर वारणाभौ चिरेण कालेन भृशम् प्रयुद्धौ सञ्चेरतुर्मण्डलमार्गमाशु तौ मुहुर्मुहुः मंडला विचिरा स्थानी विविधा चोमूत्रका चिरा गा चरश्चीन गथा वक्रगता पीमोक्ष प्रहाराण्वर्जनम पिधानम्रवण्मालाल्लवस्थान स विग्रह परावृत्तमपावृतमपद्रुतमप्लुत उपन्यस्तमपन्यस्तम् युद्धमार्गविशारदौ तौ विचेरतुरन्योन्यम् वानरेन्द्रश्च रावणः एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः आरब्धमुपसम्पेदे ज्ञात्वा तम् वानराधिपः उत्पपातददाकाशम् जितकाशीजित क्लमः रावणस्थित एवात्र हरिराजेन वञ्चितः अथ हरिवरणाथः प्राप्त सङ्ग्राम कीर्तिः निशिचरपतिमाजौ योजयित्वा श्रमेण गगनमति विशालं लङ्घयित्वार्कसूनुः हरिगणबल मध्ये रामपार्श्वम् जगामा। इति स सवितृसोऽनुस्तत्र पवनगतिरणीकम् प्राविशत् सम्प्रहृष्टः रघुवर नृपूनो वर्धय युद्ध हर्ष तरुमृगण मुख्य पूज्य मनो हरी इशे श्रीमद् रेल आदि का्युद्धकांडे